अथ पञ्चपञ्चाशः सर्गः सन्दिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् आत्मानम् बुद्धिवैक्लव्यात्कृतकृत्यमन्यत स चिन्तया नो वैदेहीम् कामबाणैः प्रविवेश प्रविवेशगृहम् रम्यम् सीताम् द्रष्टुमभित्वरन् स प्रविश्यतु तद्वेश्म रावणो राक्षसाधिपः अपश्यद्राक्षसी मध्ये सीताम् दुःखपरायणाम् अश्रुपूर्णमुखीम् दीनाम् शोकभारावपीडिताम् वायुवेगैरिवाक्रान्ताम् मज्जन्तीम् नावमर्णवे मृगयूथ परिभ्रष्टाम् मृगीम् श्वभिरिवावृताम् अधोगतमुखीम् सीताम् तामभ्येत्यनिशाचरः ताम् तु शोकवशाद्दीनामवशाम् राक्षसाधिपः सबलाद्दर्शयामास गृहम् देवगृहोपमम् हर्म्यप्रासादसंवादम् स्त्रीसहस्रनिषेवितम् नानापक्षिगणैर्जुष्टम् नाना दान्तकैस्तापनीयैश्च स्थाटिकैराजतैस्तथा वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः दिव्यदुन्दुभि निर्घोषम् तप्त काञ्चनभूषणम् सोपानम् काञ्चनम् चित्रमारुरोहतया हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः सुधामणि विचित्राणि भूमिभागानि सर्वशः दशग्रीवस्वभवने प्रादर्शयत मैथिलीम् दीर्घिकाः पुष्करिण्यश्च नाना पुष्पसमावृताः रावणो दर्शयामास सीताम् शोकपरायणाम् दर्शयित्वा तु वैदेहीम् कृत्स्नम् तद्भवनोत्तमम् उवाच वाक्यम् पापात्मा सीताम् लोभितुमिच्छया दश राक्षसकोट्यश्च द्वाविंशतिरथापराः वर्जयित्वा जरा वृद्धान् बालाम् शरजनीचरान् तेषाम् प्रभुरहंसीते सर्वेषाम् सहस्रमेकमेकस्य मम कार्यपुरस्सरम् यदिदम् मे त्वयि सर्वम् प्रतिष्ठितम् जीवितम् च विशालाक्षित्वम् मे प्राणैर्गरीयसी बह्वीनामुत्तमस्त्रीणाम् मम योऽसौ परिग्रहः तासाम् त्वमीश्वरी सीते मम भार्या भवप्रिये साधु किम् बुद्ध्या रोचयस्व मम भजस्वमाभितप्तस्य प्रसादम् कर्तुमर्हसि परिक्षिप्ता समुद्रेण लङ्केयम् नेयं धर्शयितुम् शक्यासेन्द्रैरपि सुरासुरैः न देवेषु न यक्षेषु न गन्धर्वेषु न ऋषिषु अहम् पश्यामि लोकेषु यो मे वीर्यसमो भवेत् राज्यभ्रष्टेन दीनेन तापसेन पदातिना किम् करिष्यसि रामेण मानुषेणाल्पतेजसा भजस्व सीते मामेव भर्ताहंसदृशस्तव यौवनम् त्वद्ध्रुवम् भीरुरमस्वेह मया सह दर्शने मा कृथा बुद्धिम् राघवस्य वरानने कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः न शक्यो वायुराकाशे पाशैर्बद्धम् महाजवः दीप्यमानस्य वाप्यग्नेर्ग्रहीतुम् विमलाः शिखाः त्रयाणामपि लोकानाम् नतम् पश्यामि शोभने विक्रमेण नयेद्यस्त्वा मद्बाहु परिपालिता लङ्काया स्वमहद्राज्यमिदम् त्वमनुपालया त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम् अभिषेकजलक्लिन्नातुष्टाचरमयस्व दुष्कृतम् यत्पुरा कर्म वनवासेन तद्गतम् यच्च ते सुकृतम् इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिली भूषणानि च मुख्यानि तानि सेव मया सह पुष्पकम् नाम शुश्रोणि भ्रातुर्वैश्रवणस्य मे विमानम् सूर्यसङ्काशम् तरसा निर्जितम् रणे विशालम् रमणीयम् च तद्विमानम् मनोजवम् तत्र सीते मया विहरस्व यथा सुखम् वदनं पद्मसङ्काशम् विमलं चारुदर्शनं शोकार्तं तु नभ्राजति वरानने एवम् वदति तस्मिन् सा वस्त्राम् तेन वराङ्गना पिधायेन्दुनिभम् सीता मन्दमश्रूण्यवर्तयत् ध्यायन्तीम् तामिवा स्वस्थाम् सीताम् चिन्ता उवाच वचनम् वीरो रावणो रजनीचरः अलम् व्रीडेन वैदेहि धर्मलोपकृतेन ते पार्श्वोऽयम् देवि निष्पन्दो यस्त्वामभिभविष्यति एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ प्रसादं कुरु मे क्षिप्रम् वश्यो दासोऽहमस्मि ते इमा शून्या मया वाचः शुष्यमाणेन भाषिताः न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीम् प्रणमेतः एवमुक्त्वा दशग्रीवो मैथिलीञ्जनकात्मजा कृतान्तवशमापन्नो ममेयमिति मन्यते इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चपञ्चाशः